अथ अष्टपञ्चाशत्तमोऽध्यायः सौतिरुवाच इदमत्यद्भुतं चान्य आस्ती कस्यानुशुश्रुमा तथा वरैश्चन्द्यमाने राज्ञा पारिक्षिते न हि इन्द्रहस्ताच्युतो नागः ख एव परो राजा बभूवजन मे जयः हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि न स्म तक्षको भयपीडितः शौनक उवाच किं सूत विप्राणां मन्त्रग्रामो मनीषिणाम् न प्रत्यभातदाग्नौ यत् स तक्षकः सौतिरुवाच तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञम्पन्नगोत्तमम् आस्ती कस्तिष्ठतिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयत यथा तिष्ठति वै प्यातामिदं कर्म पन्नगा सन्त्वनामयाः प्रीयतामयमस्तीकः सत्यं सूतवतोऽस्तु तत् शब्दः प्रीतिदः समजायत आस्तीकस्य वरे दत्ते तथैवोपरराम च स यज्ञः पाण्डवे यस्य राज्ञः पारीक्षितस्यः प्रीतिमांश्चाभवद्राजा भारतो जनमे जयः ऋत्विग्भ्यः स सदस्येभ्यो ये तत्रासं तेभ्यश्च प्रददौ वित्तं शतशोथसहस्रशः लोहिताक्षाय विभुः एनोक्तं तस्य तत्राग्रे सर्पसत्र निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु दत्त्वा द्रव्यं यथा न्यायम् भोजनाच्छादनान्वितम् प्रीतस्तस्मै नरपतिः अप्रमेयपराक्रमः ततश्चाकारवभृथं विधिदृष्टेन कर्मणा आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतं राजा प्रीतमनः प्रीतं कृतकृत्यम् अनीषिणं पुनरागमनं कार्यं। इति चैनं वचो भविष्यसि सदस्यो वाजिमेधे महाक्रतौ तथेत्युक्त्वा प्रदुद्रावा तदास्तीको मुदायुतः कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् स परमप्रीतो मातुलं मातरं च ताम् अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत्